मुद्गलपुराणं खण्डं नयन् योगचरितम् अध्यायं 33. महोदरचरितमाहात्म्यवर्णनम् श्रीगणेशाय नमः सूद उवाच माध्यन्दिनो महाभागो मुनिःसर्वार्थको विधः स्वधर्मनिरदो नित्यं नानाबलतपन्वितः शान्त्यर्थम् जगामैव व्यासम् सर्वज्ञमुत्तमम् तम् प्रणम्य महाभागम् पप्रच्छ विनयान्वितः माध्यन्दिन उवाच शान्त्यर्थम् किं न रैकार्यम् तन्मे महामदे येन योगयुता सर्वे भ्रमीभूता बभूविरे व्यास उवाच योगे ब्रह्मभूदो नरो भवेद तेन शान्तियुतो भावी सा सर्व सम्मता स एव महोदर इति स्मृतः तं भजस्वभिधानेन तदा शान्तिमवाप्स्यसि संयोगायोगरूपः सन् तयोरुदरगान् परान् भुनक्तिसकलान् भोगान् स्मृतस्तेन महोदरः ब्रह्मसुब्रह्मसौख्यं यद्भोगरूपं प्रकीर्तितं भुक्तो भोगस्थितो यत्र तदेव जठरं स्मृतं जगदां ब्रह्मणां विप्र जठरे संस्थितः सदा गणेशो भोग भोक्ता को वै कोऽपि तस्योदरेण तु प्रोक्तो महोदरस्तेन वेदेषु गणनायकः एकस्तम्भज भक्त्या वै तया शान्तिमवाप्स्यसि यमुक्त्वा महायोगी व्यासो विरराम विररामशतं नत्वा आश्रमं स्वं जगाम च महोदरचरित्रं स मौद्गलस्थं विशेषदः परो भूत्वा भजतं तु महोदरम् तस्मै तुष्टो गणाधीशो ददौ योगं सुशान्दिकं तदश्शान्धियुधो नित्यमभजद्गणनायकं महोदरचरित्रं यतः पठन्नित्यमादराद महायोगी स्वयं तत्र स्थापयामास विघ्नपं कदाचिद्गणराज्यं स पूजयित्वा पपाठ तत् महोदरस्य माहात्म्यं तत्र चित्रं बभूवः मण्डूको दैवयोगेन शुश्रावज्ञानसंयुधः निर्मल्ये संस्थितस्तत्र भयभीदः समन्तदः ततो बहौ गते काले मृदं तं कुत्रचित् स्थले मण्डूकं च समानेदुमगमन् गाणपामुदा सङ्गृह्य ब्रह्मभूतं ते चक्रुरेकश्रवात् परं पाठस्य पश्य विप्रेष माहात्म्यं परमाद्भुतं एवं नानाजनाविप्रमहोदरचरित्रकं संसेव्य भुक्तभोगास्ते भवन् ब्रह्म मया ॐ तत्सतिदि श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्म उद्गले महापुराणे नवमे खण्डे योगजरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे महोदरचरितमाहात्म्यवर्णनं नामत्रयस्त्रिंश्योऽध्यायः ओम्